त्वारिंशः सर्गः गतेषु वा नरेन्द्रेषु रामः सुग्रीवमब्रवीत् कथम् भवान् विजानीते सर्वम् वैमण्डलम् भुवः सुग्रीवश्च ततो राममुवाच विस्तरेण वचो मम यदा तु दुन्दुभिम् दानवम् महिषाकृतिम् प्रतिकालयते वाली मलयम् प्रति तदा विवेशमहिषो मलयस्य गुहाम् प्रति विवेशवाली तत्रापि मलयम् तज्जिघांसया ततोऽहम् तत्र निक्षिप्तो गुहाद्वारि विनीतवत् न च निष्क्रामते वाली तदा संवत्सरे गते ततः क्षत च वेगेन आपुपूरे तदा बिलम् तदहं विस्म दृष्ट् भ्रा शोक विशादी अथा हतबुद्धिस्व्यक्त निहत गुरु शिलापर्वत््वा मैता अशक्ल महिषो विनशिष्यगाशस्त राज्य सुमहत्प्याराचुया सह मित्रैश्च सहितस्तत्र वसामि विगतज्वरः आजगाम ततो वाली हत्वा तम् वाणरर्षभः ततोऽहमददाम् राज्यम् गौरवाद्भययन्त्रितः समाम् जिघाम् सुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः परिकालयते वाली धावम् तम् सचिवैः सह ततोऽहम् वालिना नदीश्च विविधाः पश्यन् वनानि नगराणि च आदर्शतलसङ्काशा ततो वै पृथिवी मया अलातचक्रप्रतिमा दृष्टा गोष्पदवत्कृता पूर्वान् दिशम् ततो गत्वा पश्यामि विविधान् द्रुमान् पर्वतान् सदरीन्द्रम्यान् सरांसि विविधानि च तत्र पश्यामि पर्वतम् धातुमण्डितम् क्षीरोदम् सागरम् चैव नित्यमप्सरसालयम् परिकाल्यमानस्तदा वालिनाभिद्रुतो ह्यहम् पुनरावृत्य सहसा प्रस्थितोऽहम् तदा विभो दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणाम् दिशं। विन्ध्यपादपसङ्कीर्णाम् चन्दनद्रुमशोभिताम् द्रुमशैलान्तरे पश्यन् भूयो दक्षिणतोपराम् अपराम् च दिशम् प्राप्तो बालिना समभिद्रुतः सपश्यम् विविधाम् देशानस्तम् च गिरिसत्तमम् प्राप्य चास्तम् गिरिश्रेष्ठमुत्तरम् सम्प्रधावितः हिमवन्तम् च मेरुम् च समुद्रम् च तथोत्तरम् यदा न विन्दे शरणम् बालिना समभिद्रुतः ततो माम् बुद्धिसम्पन्नो हनुमान् वाक्यमब्रवीत् इदानीम् मे स्मृतम् राजन् यथा वाली हरीश्वरः मतङ्गेन तदा शब्दो ह्यस्मिन्नाश्रममण्डले प्ररिषेद्यदि वैवालीमूर्धा स भवेत् तत्र मासः निरुद्विग्नो भविष्यति ततः पर्वतमासाद्यर्ष्य मूकम् नृपात्मजा न तदा वाली मतङ्गस्य भयात्तदा एवम् मया तदा राजन् प्रत्यक्षमुपलक्षितम् पृथिवीमण्डलम् सर्वं गृहामस्म्यागतस्ततः इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये किष्यन्धाकाण्डे षट्चत्वारिंशत्